मुद्गलपुराणं खण्डं तु एकदन्तचरितम् अध्यायम् 31 श्रीगणेशाय नमः दक्ष उवाच कोऽसौ गजासुरो नाम्ना दैत्यः परमदारुणः वद तस्य चरित्रं मे वधपर्यन्तमुत्तमं यथार्धे गणराजोऽयं भवत्प्रभो तन्नमुद्गलसामान्यं धन्यं जन्मासुरस्य च सूत उवाच दक्षस्य वचनं रम्यं श्रुत्वा योगीन्द्रसत्तमः जगाद सकलं तस्य चेष्टितं दैत्यपस्य वै मुद्गल उवाचा शृणुदक्ष पुरावृत्तमितिहासं वदामिदं प्रापप्रशमनं पूर्णं भुक्तिमुक्तिफलप्रदम् महिषासुरनाश्यं च चकार जगदम्पिका तस्य पुत्रो महातेजा गजासुर इति स्मृदः पितुर्वधेन देवानां वधकाङ्क्षया शुक्रोपदिष्टमन्त्रेण शङ्कराराधने रथः तताप स तपोघोरं निराहारसमन्वितः पञ्चाक्षरविधानेन तोषयामास शङ्करम् दशवर्षसहस्राैस्तु प्रसन्नोऽभूत् शिव स्वयम् आययौतं वरं दातुं गजासुरतपोवने काष्ठवसंस्थितं दैत्यं दृष्ट्वा विस्मयमागतः जगाद तं स्वभक्तं वैशङ्करकरुणानिधिः शिव उवाच वरं वरयमस्तस्त्वं गजासुरमहामदे तपसा परितुष्टोऽहं तव दास्यामि दुर्लभम् शङ्करस्य वचश्रुत्वा हर्षयुक्तो महासुरः उपचारैषोडशभिप्रणम्या पूजय शिवम् अथर्वशिरसा शम्भुं तुष्टा वासुरनायकः वरं वव्रे महाक्रूरं तच्छृणुष्व गजासुर उवाच यदि तुष्टोऽसि देवेश वरं देहि महेश्वर ब्रह्माण्डवासिन सर्वे तेभ्यो मृत्युर्नमे भवेद् राज्यं ब्रह्माण्डगोलस्य देहि सामर्थ्यमुत्तमं सर्वादिकं महेशाननान्यं याजे परं वरं तथेति तमुवाचाथ शिवोऽन्तर्धानगो भवद हर्षयुक्तो महादैत्यस्तदोगेहं समाययौ मात्रा सम्मानिदसोऽपि सुहृद्भिश्च गजासुरः दैत्या समाययुः सर्वे गृहे तस्य महात्मनः स्वयं गत्वा गुरुं शुक्रमानयामास दैत्यपः तदो मुनिगणैः सार्धमभिषेकं चकारसः दैत्यानां दानवां च राजा भूत्स गजासुरः तैर्युक्तपृथिवीं जित्वा ययौ स्वर्गं महाबलः देवा पलायुधा सर्वे ज्ञात्वा क्रूरं गजासुरं शङ्करं ते समाश्रित्य स्थिदात् सर्वे भयाधुराः दैत्याै समावृदः सोऽपि कैलासमगमत्तदः शङ्करक्रोधसंयुक्तस्तं ययौ देवसंवृदः युद्धाय शङ्करं तेनागदं ज्ञात्वा महासुरः स्वयं सैन्यं पुरस्कृत्य ययौ रणविधित्सया देवानां दानवानां च युद्धं परमदारुणं सञ्जातं च ततो दैत्याः पलायनपराययुः तं दृष्ट्वा क्रोधसंयुक्तो गजदैत्यप्रदापवान् बाणवृष्टिमहोग्रां स ससर्ज सुरनाशिनीं बाणाैर्निपतितास्तस्य देवाः सर्वे धरातले चिह्नाङ्गामरणप्रायाः प्रलय तदा इन्द्रादयश्च दिक्पालाः पदिदा बाणपीडिताः गदया विष्णुमहनत्सोऽपि भूतलमाश्रिदः तदक्रोधसमायुक्तशङ्करशूलमाददे तेनाखनन्महादैत्यं प्रलयाग्नि समेन सह त्रिशूलेन हतसोऽपि न चा चालसुराधिपः वरदानप्रभावेण शस्त्राणि व्यर्थदां ययुः सहसागत्य दैत्येशो धृत्वा पादं प्रहस्य महेशानं चिक्षेपरणमूर्धनि ततो देवगणाः सर्वे पलायनपरायणाः ययोर्दशदिशो रक्षो दैत्यसन्त्रासतापिताः दैत्योऽपि शिवलोकं दैत्यैः सह समाययौ स्थापयामास देवानां पदेषु श्रेष्ठदानवान् विकुण्ठादिपदेष्वेदे स्थितास्तेन सुमानिताः स्वर्गभोगकरा सर्वे कृदा दैत्या सुरारिणा कैलासे सम्भरं दैत्यं स्थापयामास वीर्यवान् स्वयं समागतो पृथिव्या दैत्यपैत मखिषाख्यपुरे दुष्ट संस्थित दैत्यप त्रैलोक्यस्य महाबलः गते बहुदरे काले देवा सर्वे दवास भया पतासुप्ता अभवन अभवन्जय विचारमखिलाश्चक्रुर्गजासुरवधायते तत्र विष्णोर्जगादेदं वचनं सर्वतोषधं विष्णुरुवाच ब्रह्माण्डवासिनो ये तेभ्यो मृत्युर्न विद्यते दैत्यस्य वरदानेन तेन सर्वे पराजिताः स्वानन्दलोकः साक्षात् गणेशो देवनायकः ब्रह्माण्डवर्जितो ब्रह्म तस्मात् तस्य मृदिर्भवेद् अधस्तं देवदेवेशं तपसा पुष्कलेन वै सर्व आराधयामैव देवासर्षिगणाः परं स हत्वादमहादैत्यं प्रदास्य पदा निवह हितं यदि सुराकार्यं वचनं सुखप्रदम् विष्णो वचनमकर्ण्य देवा मुनिगण तथा साधु साध् विधि त्रोचु बभुस्त संस्थिता केजिन्म्रजप चक्रु केजिन्म जपम तथा के केजिमानसपूजायां निरता बभूविरे केजिध्यानम गणेश चक्रु कं विभो निराहारं तथा केजिद्वायुपत्रादिभक्षकाः केजिद्धोमं च पञ्चाग्निं धूम्रपानं तथापरे इत्यादि तपसादेवं तोषयामासुरादराद शतवर्षे द्शं वै प्रादुर्भुतो गजाननः पुरतस्तानुवाचेदं वचनं भक्तवत्सलः गणेश उवाच देवाश्च मुनय सर्वे वरम् ब्रूद हृदीप्सितम् दुर्लभम् त्वपि तद्दास्ये तपसा तोषितो भृशम् गणेशवचनम् श्रुत्वा दृष्ट्वा देवम् पुरस्थितम् प्रणे मुर्मुनयो देवा दण्डवत् पृथिवीतले परया पूजयन् भक्त्या ब्रह्मेशम् ब्रह्मभाविदाः तुष्टुवुसम्प्रहृष्टाश्च सरो माञ्चा प्रजापदे देवर्षय ऊजुः नमो नमो गणेशाय गणपालकमूर्तये गणरूपेण सर्वत्र संस्थिताय नमो नमः मूषकाजूटकायैवानादिरूपाय दे नमः आकारादिविहीनाय आकारिरूपाय दे नमः हेरम्बाय नमस्तुभ्यं भक्तसंरक्षकाय च भक्तवत्सलभावाय विघ्नेशाय नमो नमः नमस्तुभ्यं सिद्धिपदे सिद्धिदात्रे जढुण्ढये बुद्धिदात्रे धियपात्रे सर्वान्तश्चारिणे नमः स्वानन्दपदये तुभ्यं स्वसंवेद्याय ते नमः योगरूपाय शान्दाय योगानां पदये नमः यो यो आदिमध्यान्तहीनाय कर्त्रे कर्त्रे नमो नमः पालकाय त्रिभिर्हीन गुणेशाय नमो नमः वक्रतुण्डाय देवाय लम्बोदरधराय च सर्वेषां हृदि संस्थाय विनायकनमोऽस्तु दे यं स्तोदुम्न समर्थाश्च वेदाः साङ्घाः कदाचन वयं तत्र च के देव वेदैर्ज्ञानधराय एवं स्तुत्वा गणेशानं पेदुस्तेत्तस्य पादयोः दृत्वा मनसि तद्रूपं भक्तिभावेन यन्त्रिताः पुनरुद्धायते सर्वे समूचुर्भयविह्वलाः कृताञ्जलिपुडादेवं गणेशं सर्वनायकं यदि तुष्टोऽसि देवेश जहि दैत्यं गजासुरं पदभ्रष्टा वयं तेन कर्मविवर्जिताः भक्तिं ते देहि विघ्नेश सर्वदुःखविनाशिनीं येष एव वरोऽस्माभिर्वाञ्छितोऽद्विरदानन देवर्षीणां वचश्रुत्वा भक्तवत्सलभावतः उवाच तान् गणाध्यक्षो हर्षयन्वचनं शुभं गजासुरवधं देवामुनयश्च सुदुष्करम् तथापि भवतां वाक्यात् करिष्येकं न संशयः मदीया भक्तिरचना भविष्यति सुदुर्लभा पराशरस्य पुत्रोऽहं भविष्यामि वधाय वै भवत्कृतमिदं स्तोत्रं मम प्रीतिविवर्धनं भुक्तिमुक्तिप्रदं पूर्णं भविष्यति पठतां शृण्वतां विप्रा सर्वार्थसिद्धिदं दुःखाघ्नम् स तद्धं तेषां भविष्यति सुबुद्धिदम् इत्युक्त्वा दर्दधे देवो गणेश सर्वसिद्धितः वत्सलो दरगो भूत्वा पराशरसुतोऽभवत् जातकर्मादिकं सर्वं चकारमुनिसत्तमः ब्राह्मणै हर्षितो भूत्वा पत्न्या स्वयमुदारधीः सबालोपवृथे तत्र हर्षयन्मादरं निजं पितरं चेष्टितै स्वीयैर्बालक्रीडनकैस्तथा पञ्चमे व्रतबन्धं च चकारमुनिसत्तमः वेदानध्यापयामास साङ्गास्तान् गणपायज विवाह मकरोत्तस्य सिद्धिर्बुद्धिश्च शाश्वते मरीचेश्च सुतेजाते दत्ते कीति ते कथितं सर्वं पराशरसुतस्य च चरितं गणनाथस्य दैत्यस्य शृणुचेष्टितम् ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषद्दि मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते पराशरसुतोत्पत्तिकथनं नामैकत्रिंशोऽध्यायः ओम्